थर्वेदे सप्तमाष्टके तृतीयोऽध्यायः ॐ धर्तादिवः पपते कृत्यो रसो दक्षो देवानामनुवाद्यो नृभिः हरिसृजानो अत्यो न सत्पभिरुधा पायांसि कृणुते नदेष्म शूरो न धत्त आजुधा गवश्चो स्वा अशिषासन्द्रिरोगभिष्टिषो इन्द्रस्य शुष्मवेरयन्नपस्विभिरिन्दृहीन्वा नो अज्यते मनीषिभिः इन्द्रस्य सोमपवमान ऊर्मिणा आतविष्यमाणो जठरेष्वापिशा प्रणाप् विद्युदभ्रे वरोदसीधिजानवाजाम् उपमासि विश्वस्य राजा आपपते स्वदृशऋतस्य धीतिमृषिषाळवीवशत् यः सूर्यस्याशिरेण मृज्यते ए पितामती नाम वृषे एव जूथापरिकोषमर्षस्य पामुपस्थे एव वृषभः खनिकृदत् स इन्द्रायपवसे मत्सरिन्तवो यथा देशा आमसमिथे स्तोतयः एज प्रकोषे मधुमाम् अचिक्रतदिन्द्रस्य वज्रोपुषोपपुष्टरः अभिमृतस्य सुदुःखा आकृतश्च्युतो ओवाश्रा अर्षन्ति पयसेवधे न वा स पूर्व्यः पपते यन्दिवस्परिष्ये नो मथा यदिषितः स्थिरो रजाः समग्ध आयुवते वे विजान इत्कृशानो रस्तुर्मनसाः विभ्युषाः तेन शेण्यासो अह्यो ओनजारवो ब्रह्म ब्रह्मजे जुषुरहभिर्हभिः भजन्नो अविद्वान्मनवद्मनुष्यत इन्दः सत्रा चापनसा पुरुष्टुतः इरस्यजः सतदे गर्भमा तथे गवा आपुरुब्जमभ्यर्षति व्रजम् असा आ वित्रो वृजनेषु यज्ञयोत्यो न यूथेऽपिषयुः करिक्रदत् प्रराजावाचम् जनयन्नशिष्यत तपोपसा नो अभिगायियक्षति द्रघ्नातिरिक्प्रमभिरस्य दे तान्वाशुद्धो देवानामुपयाति निष्कृतम् इन्द्रायसोमपरिरुच्य से नृभिरृतक्षा आ ऊर्मिः कविरज्य सेवने पूर्वेरहिते श्रुतयः सन्ति यातवे सहस्रमश्वाहरयश्च मूषदाः समुद्रिया अप्सरसोमनीषिणमासेना अन्तरभिसोमक्षरन् ताईन्ति हर्म्यस्य सक्षणि याचन्ते सुन्नम् पवमानमक्षितम् कोयिन्नः सोमो ओरसजिद्धिरण्यजित् स्वर्जितजित्तवते सहस्रजित् श्चरे पीरजे मतम् स्वातिष्ठन् द्रप्समरुणम् एतानिसो एतानि सोमपवमानोऽस्मजुः सत्यानि कृण्णान्यर्षसि जिहि शत्रुवन्ति केदोरके च उर्वीङ्गव्यतिमभयञ्जनस्कृति अचोतसो नोधम्भम् पिण्डवः प्रसुपानासो विचनशन्न इषो अरा आतजोर्योदशन्त सरिषन्तनोधियाः वृणोऽथन्वन्विन्दवोमदच्युतोऽधना आवाजे फिरवतोमसि तिरोवर्तस्य कस्य दित्परिः कृतिम् वजन्धना आदिश्वथा आभरेमहि उत स्वस्या अरा आत्या अरिष न्मन्नदृष्टा समरीतता अभिसोमधि पवमानदुराख्याः दिवि तेनाभापरमो या ददे पृथिव्यास्तेरुरुहसानीक्षिपाः अद्रयस्तावप्सति गोरधि त्वच्या अप्सुत्वा हस्तैर्दुरुमनीषिणाः एवात इन्दो सुम् सुपेशसंप्रसन्तुञ्जन्ति प्रथमा अभिश्रियाः निदम् निदम् पवमाननिता आदिष आविष्टे शुष्मो भवतु प्रियो मदाः सोमस्य तारा आपवते द्रिजक्षसते न देवानुभवते दिवस्परि बृहस्पते रमथेनाविदिद्युते समुद्रा सोनसमनानि विव्यजुः यन्ता आवाजन्ध्यानभ्यनो शताहतयोनिमारोऽसि द्युमान् मघो नामायुः प्रतिरन्महि श्रव इन्द्राय सोमपवसे वृषापदाः एन्द्रस्य कुक्षापवते मदिन्तमऊर्जम् वसा आ न श्रवसे सुमङ्गलाः प्रत्यं सविश्वा भुवनाभिपप्रथे क्रीडन् हरिरत्यस्यन्दते वृषाः तन्ता आ देवेभ्यो मधुमत्तमन्दरः सहस्रधारम् दुहते ृभिः सोमप्रच्युतो ग्रामभिः सुतो विश्वा देवाम् आपवस्वासहस्रयित् तन्त्वा आहस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सुषभन्दशक्षिपाः इन्द्रम् सोमभाषयन्द्रैभ्यञ्जनं सिन्धो अरिवोर्मिः पवमानो अर्षसि प्रसोमस्य पवमानस्योर्मज इन्द्रस्य यन्ति जठरम् सुपेशसः दद्धाय देमुन्ने एतायशसा गवा अन्तारायशूरमुतमन्दिषु सुताः अच्छाहि सोमः कलशाम् अशिष्यदत्यो नवोल्हा आ रघुवर्तनिर्मृषाः अथा आदेवानामुभयस्य जन्मनो विद्वाङ् अश्नोत्यमुत इतश्च यत् आनः सोम पवमानः किरावस्विन्दो शिक्षा आवयो धोमस वे सुचेतुनामानो गजमारे अस्मत्परा आसिचः आनः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा आसविता सुजमा सरस्वती उभे द्यावापृथिवी विश्वमिन्द्रे अर् यमा देवो अजतिर्विधाता भगो नृशंस उर्वा अंतरिक्षं विस्पे ए देवाः पवमानञ्जुषन्त असा अविसोमो अरुषो वृषा राजे एव अभिगा अधिक्रदत पुरा नो वारम्पर्ये एत्यव्ययम् श्ये नो न योनिम् घृतवन्तमासनम् कविर्वे एधस्यापर्ये शिवाहिनमज्यो न अपसेधम् दुरितासो मृळयघृतम् वसा नः परियासि निर्निजम् पर्जन्यः पितामहिषस्य पन्निनो नाभाः स्वसा आर आपो अभिगा उता सरन्सन्द्रावभिर्नसते वीते अग्धरे दायेपत्यावधिषेव मंहसे न्तर्वाणी एषु प्रचरासु जीवसे एलिन्द्यो वृजने एषोमजागृहि यथा पूर्वे एभ्यश्च तसा अमृद्धः सहस्रसाः पर्ययापाजमिन्दो एवापवस्पसु विताजनम् यसे तव रतमन्वापः सजन्ते पवित्रम् ते विततम् अतप्तदधोर्नतदामो अश्नुते श्रुता स इद्वहन्तस्तत्समाशत तपो ओष्पवित्रम् विततम् दिवस्पते शोचन्तो अस्य तन्तपोऽव्यस्थिरन् अवन्त्यस्य चेतसा अरु ओरुचदृषसः पृश्निरग्र्य उक्षापि भर्तिभुवनानि वाजयोः मायाविनो ओमविरे अस्य मायया आरक्षसः पितरो गर्भमादधुः गन्धर्व इत्थापदमस्य रक्षतिपातिदेवानाञ्जनिमान्यद्भुरः द्रब्णादिपुन्दिधया आधापतिः सुकृत्तमा मधुनो भक्षमाशत हविर्हविष्मो महि सद्मदैर्जनभोमसा नः परियास्यद्धरम् राजा आपवित्ररथो वाजवारुहः सहस्रभृष्टिर्जयशिश्रवो बृहत् पवस्वदे पवातरोऽपि चर्षणि रप्सा इन्द्रा आयवरुणाय वायवे कृधीनो अद्य परिवस्वस्ति मधुरुक्षितौ गृणीहितै व्यञ्जनम् आयस्तस्थौ भुवनान्यो विश्वा आदिशो मः परितान्यर्षति कृण्वन् संस्कृतम् विश्रितमभिष्टय इन्दुस्युषत्युष सन्नसूर्याः आयोगोऽभिसृज्यत ओषधीष्वा देवानाम् सुम्न इषय नुपा आपसुः आविद्युता आपवते धारया सुत इन्द्रम् सोमो ओमादयञ्जैव्यञ्जनम् एषस्य सोमः पवते सहस्रजिद्धिन्वादोवाचमिशिरामुषद्बुधम् इन्दुः समुद्रमुदियर्थि वायुभिरेन्द्रस्य हार्दिकलशेषु सीदति अभित्यङ्गावः पयसा पयो वृथम् सोमम् श्रीणन्तिपतिभिः स्वर्विदम् धनन्दयः पवत् कृत्यो रसो विप्रः कविः काव्येनाः स्वर्चनाः इन्द्रायसो मसुषुतः परिस्रवा पामी भवतु रक्षसा माते रसस्य मत्सतद्वयाविनो द्रविणः स्वन्त इह सन्बिन्दवः अस्मान्समर्ये पवमानचोदजक्षो देवानामसि हि प्रियो मदाह जहि शत्रो ॐभ्या वन्दनायतः पिबेन्द्रसो मम वनो मृधो जहि अदब्ध इन्दो ववसे मदिन्दव आत्मेन्द्रस्य भवसि दासे अभिस्मरन्ति बहवो मनीषिणो राजानमस्य भुवनस्य निंसते सहस्रणेधः शरधारो अद्भुत इन्द्राजेन्दुः पवते कान्यम् मधु जयन् क्षेत्रमभ्यर्षाजयन्नप उरुन्नो दातुम् कृणसोममेभ्यः कनिक्रदत्कलशेकोऽभिरज्य सेव्या अव्ययम् समया पारमर्शसि ृज्यमा नो अत्योनसा न शिरिन्द्रश्रिहोमजते समक्षरः स्वादुःपवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुभवे हेतुनाम्ने स्वादुर्मित्राय वरुणाय वायवे बृहस्पतजे मधुमाम् अराभ्यः अत्यम् व्रजन्ति कलशेदसक्षिपः प्रविप्राणाम् ईरते पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रम् विशन्ति मधिरासैन्दवः पवमानो अभ्यर्षा सुवेर्य पूर्वे गव्यशर्म सप्रथाः वाक्यर्नन्दो अस्य परिशूतिरीशतेन्दो दे मत्वजाधनम् धनम् अधिज्यामस्थाद्वृणभो विदक्षणो रोरुद्विधिपोरो ओचला कविः राजा पवित्रमत्ये तिरोरुवद्दिवः पीयूषन् दुहरे नृचक्षसः दिवो नाके वधु जिह्वा असश्चतो वेना दुहन्त्युक्षणम् गिरिष्ठा अप्सुद्रप्सम् वा आप्रधानम् समुद्र आसिन्धो ओरूर्मा मधुमन्तम् पवित्रा नाके सुपर्णमुक्तिमाम् सङ्गिरो शिशुम् रिहन्ति मदयः परिप्लं हिरञ्जयम् शकुनम् क्षावणिस्थाम् ऊर्ध्वोऽगन् धर्वो अधिनाये अस्थाद्विश्वारूपा प्रतिचक्षाणो अस्य भानुः शुक्रेण शोचिशाव्यद्यौत्प्रारोरुचद्रोदसे मातराशुजेः रत रघुजा इवर्त्मनाः दिव्याः सुपर्णामधुमन्त इन्दवो मदिन्दमासः परिकोशमासते नृते मदा आसो मदिरास आशवो सुरक्षतल्या आसो यथा पृथक् धेतुर्नवत्संवयसाभिवज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयाः अत्रो न हि यानो अभिवाजमर्हः सर्वित्कोशम् दिवो अद्रिमातरम् वृषाः पवित्रे अधिसानो अव्यये सोमः पुना न इन्द्रियायधायसे प्रत आश्विने पवमानधेजुवो दिव्या असृग्रन्थय साधने मणि प्रान्तरऋषयस्थाभिरेरसृक्षतये त्वा भृजन् शिषाणवेधसाः विश्वाधामाहरिश्वसः प्रभोस्ते सतः परियन्ति चेतवाः राजसि उभयतः पवमानस्य रश्मयो ध्रुवस्य ततः परियन्ति केतवाः यदि एपवित्रे अधिमृज्यते हरिः सत्तानि यो नाः कलशे सीदति यज्ञस्य चेतुः पवते स्वद्भरः सोमो देवानामु वयाति निष्कृतम् सहस्रधारः परिकोशमर्षति वृषाः पवित्रमध्येतिरोरु राजाः समुद्रन्नद्यो विगाहते पावोर्मिम् सजते सिन्धुसुश्रितः अर्ध्यस्थार्थानुपवमानोऽ अव्ययन्नाभाः पृथिव्या तरुणो ममो दिवः निपो रसानुस्तनयन्नचिक्रतद्योष्टयस्य पृथिवी च धर्मभिः इन्द्रस्य सख्यम् पवते बिबेवि तत्सोमः पुनानः कलशेशु सीदति ज्योतिर्यज्ञस्य पवते मधुप्रियम् पिता देवाना अन्यता विभो वसुः दधातिरत्नम् स्वथयोरपीच्यम् मतिन्तमो मत्सर इन्द्रियोरसाः अभिक्रन्दन् कलशम् वाज्यर्षति पतिर्धिवश्र तथा आरोपि च क्षणः हरिमित्रस्य सदनेषु सेदति मर्मृजानो विभिः अग्रे सिन्धो नाम प्रोमाणो अर्षत्यग्रे वाचो अग्रियो कोषु गच्छति अग्रे वाजस्य भजरे अयम् अत वा अंशकुलो यथा आहितो व्ये एष सारपवमान ऊर्मिणा न वक्रत्रा रोदसी अन्तराकपेषु भवते सोम इन्द्रते द्राबिम्बसा आनो यततोदि नभसाभ्यक्रमे प्रत्नमस्य पितरमाभिभासते सो अस्य विषे महिषर्म यच्छति यो अस्य धामप्रथमम् या आदशे अदयदस्य परमेद्यो मन्यतो विश्वाः अभिसंय आदिसंयताः प्रो अयासेदिन्दुरिन्द्रस्य निष्कृतम् सखा सख्यन्न प्रमिनाति सङ्गिरम् मर्य इव युवतिभिः समर्शति सोमः कलशेषतयाम् नापथा यो न्द्रयुवो विपन्युवः परस्युवः संवसनेष्वक्रमुः सोमम् मरीषा अभ्यनुषतस्तु भोभिधेन वः पयसेमशिश्रयुः आनः सोम संयतम् पिद्युषे विषमिन्दोपवस्त्व शामधीनाम् पवते वितक्षणः सोऽः प्रतरीतोषसो दिवः क्राडासिन्धोराम् कलशा अम् अवीवशलीन्द्रस्य हाद्याः विशन्मनीषिभिः मनीषिभिः पवते पूर्वः कविर्नृभिर्यतः परिकोषा अम् अचिक्रदत कृतस्य राम जनजन्मधुखरतीन्द्रस्य राजोः अयम् पुरान उषसोऽभिरोजय रजम् सिन्धुभ्यो अभवतु लोककृत अयम् त्रिः सप्तदु दुहान आशिनम् सोमो हृदे पवते चारुमत्सरः पवः स्वसोमदिव्येषुधाम सुषुजान इन्दो कलशे पवित्रः सी दन्निन्द्रस्य दश लेखनिकृतन्द्रकर्णयतः सूर्यमारोहयो दिवि अद्रिभिः श्रुतः पवसे पवित्र आन्दविन्द्रस्य जठरेष्वाविशन् त्वम् नृचक्षाः अभवोऽ विचक्षणसोमगोत्रमङ्गिरोऽभ्यो वृणोरप त्वाम् सो, सो ओमभवमानम् स्वाध्यो नु विप्राः सोऽमदन्नवस्य वा। वां सुपर्ण सो आभरद्दिवस्परेन्दो विश्वाभिर्मतिभिः परिष्कृतम् अव्ये ए पुरानम् परिवार ऊर्मिणा हरिन्दवन्ते अभिसप्तधेनवाः अपामुपस्थे अध्यायवः कविवृतस्य यो न आमहिषा अहेषत इन्दुः पुरानो अतिगाहते मृधो विश्वानि कृण्वन् सुपथाः नियज्ये गाः कृण्णो निर्निजम् असश्चतशत अभिश्रियो हरिम् नवन्ते भता उदन्युवाः क्षिपोः मृजन्ति परिगोभिरावतम् तृतीये पृष्ठे अभिलोचने दिवः माः प्रजादिव्यस्य रेतसस्तम् विश्वस्य भुवनस्य राजसि अच्छेदम् विश्वम् रवमानते वशे त्वमिन्दो प्रथमो धा आमधा असि त्वम् समुद्रो असि विश्ववित्कवेतवेमाः पञ्च प्रदिशो विधर्मणि पञ्जाम् च पृथिवीम् चातिजभृषेत वज्योतींषि पवमानसूर्याः त्वम् पवित्रैरजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे त्वामुषयः प्रथमा अगृभ्रततुभ्ये मा विश्वाकुवनानि ये एह एत्यवारमव्ययम् वृषावनेष्वचक्रदद्धरेः सन्धृतयो वावशाना संधेतयो ऋहन्ति मतजः पनिप्नतम् सूर्यस्य रश्मिभिः पर्यूय ततन्तम् वानस्त्रिकृतम् यथाभिदे नयम् नृतस्य प्रशिशो राजा सिन्धो नाम्बवते पतिर्दिवृतस्य जातिपथिभिः परिक्रदत् सहस्ररारः परिषिच्यते हरिः पुनानो वाचम् जनयन् नृपा आवसुः अवमानमह्यर्णो विधा आवशिशोरो अव्यया निपव्यया नभस्तिभूतो नृभिरद्रिभिः सुतो महेवाजा भ्यर्झदिष्ये नो नवं सुलसे एषु सीदसे इन्द्राहायमद्वामद्यो मलः सुतो दिवो विष्टम्भ उपमो विचक्षणः सप्त स्वसाहारोऽभिमातरर्षिशुन्दवम् ज्ञानञ्जेन्यम् विपश्चितम् अपाङ्गम् धर्वम् दिव्यम् ऋक्षसं सोमम् विश्वस्य भुवनस्य राजसे ईशान इमा भुवना निवीयसे युजान इन्दो हरितः सुभन्याः तास्तेऽक्षरम्भृतम् वयस्तवो रते सोम तिष्ठन्तु पृष्टयाः त्वम् नृचक्षाः असि सोम विश्वतः पवमानवृषभताविधावसे स नः पवस्पसु मद्धिरण्यवद्वयम् स्यामभुवनेषु जीवसे गो तोधा सुद्धिरण्यविद्रेतो तो भुवनेष्पर्पितः तम् सुवीरोऽसि सोमविश्ववित्तम्पा विप्रा उपगिले महासते उन्मध्व ऊर्मिर्वनना अतिष्ठिपतपोवसा नो महिरो आहते राजा आपवित्रलथोमाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत् स भन्दना उदयर्ति प्रजावतेर्विश्वायुर्विश्वा सुहरा अहर्दि ब्रह्म प्रजावद्रयिमश्वपत्यम् पीतयिन्द्रविन्द्रमस्मघ्नै याचतार सोऽग्रे अह्नाम् हरिर्हर्यतो मदः प्रचेतसाचेतयते अनुद्युभिः वाचनायातयन्नन्तरीयते न राजम् सन्दैव्यम् च धर्तरि अञ्जते व्यञ्जते समञ्जते क्रतुम् रिहन्ति मधुनाभ्यञ्जते सिन्धोरुच्छ्वासे पतयन्द्रमुक्षणम् हिरण्यपावाः पशुमाः सुगृह्णते विपश्चिते पवमानाय गायत महीनधारात्यन्धो अर्षति अहिर्नधूर्णामतिसर्वतिपचमत्यो न क्रीडन् अग्रे गो राजाप्यस्तविश्यते विमानोऽहङ्गाम्भुवनेष्वर्पितः हरिर्घृतस्तु सुदृशे एको अर्णवो ज्योतिरथः पवते राज ओक्याः असद्य स्कम्भो दिव उद्यतो मतः परि त्रिधातुर्भुवनान्यषति अंशुम् प्रते धारा अत्यन्वा आनिवेश्यः पुनानस्य संयतोऽयन्दिरम्भयः यद्गोभिरिन्दो चम्बोऽस्रमजस आसुवानः सोमकरसे एषुशीलसे मवस्तसोमक्रतुलिन्न उख्यो व्यो वारे परिधावमधु प्रियम् देहि विश्वा अन्रक्षस इन्दो अत्रिणो बृहद्वदेम विदथे सुवीराः रतुद्रवपरिको सन्निषे एतदर्भिः पुनानो अभिवादमर्ष अस्मन्नत्वा आवादिनम् मर्जयन्तोच्छा आ बर्हेरचनाभिर्णयन्ति स्वायुधः पलते देव इन्दुरशस्तिहा विजनम् रक्षमाणः पिता देवानाञ्जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ुप्रः पुर एता जना प्रभुर्धेन उशना काव्ये सचिद्विवेदनिहितम् यदा आसामपीच्या अङ्गुह्यन्नामगो नाम् एते सोमा आ अभिगम्या सहस्रा आ महेवाजा आयामृता आयश्रवाँसि पवित्रे एभिःपवमाना असृग्रन्थवस्य गो न पृतनाजोऽत्या आह परिहिष्मा आ पुरुहूतो जनानाम् विश्वासरद्धो जना पूयमानः अथा भरस्येन भृतप्रयांसि रयिन्दुञ्जा एष सुबानः परिसोमः पवित्रे सर्गो न सृष्टो अदथा वदर्वा दिग्मे नो महिषो न शृङ्गे सत्पाः एषा यौ परमादन्तरद्रेः कूचित्सती रूपेगाभिभेद लिबो उत स्मराशिम् पर्याचि गो नामिन्द्रेण सोम सरथम् पुरानः ऊर्भीरिषो बृहतीर्जीरदा नो शिक्षा शचेभस्तवता उपष्टुत अयम् सोम इन्द्र तुभ्यम् सुन्वेतुभ्यम् पवते स एम् रथो न सात एव आदेम् विश्वा आनहुष्याणि दाता स्वर्षा तावन ऊर्ध्वानवन्त वायुर्नयो नियुत्वा अङ्िष्टया आमाना सत्ये बहवः शम्भविष्ठः विश्ववा आरोद्रविणोदा इव त्वन् पूषेव इन्द्रो न यो महाकर्माणि चक्रिर्णन्दा वृत्राणामसि सोमपूर्भित वयित्वो न हि त्वमहिनाम्नाम् हन्दा ना विश्वस्यासि सोमदस्योः भग्निर्नयो वन आसृज्यमा नो वृथापाजाम् श्रिकृते नदेषु जलो न एते सो मा अधिवाराण्यम्या आदिव्या नकोशासो अभ्रवर्षाः नथा आसमुद्रम् सिन्धवो ननीचीः सुतासो अभिकलशाङ्गसृग्रन्न सुमीषर्धो न मारुतम्बवस्वानभिषस्ता दिव्यायथा आपो नमक्षो मक्षोऽसु मतिर्भवानः सहस्राप्सा राज्ञो न ते वरुणस्य व्रतानि बृहद्गभीरन्दव सोमधाम सुमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम प्रोऽस्य वह्निः पथ्याभिरस्यान् युवो न वृष्टिः सहस्रधारो असधन्या अस्मे राजा सिन्धो नाम वसिष्ठ वा शरदस्य नाम मारुभ्रजिष्ठाम् अप्सुद्रप्सो वातो दुहईम् पिता दुह ऐम् पितुर्जा सिंहन्नसन्तमधो अया संहरिमरुषन् शूरो युत्सुप्रसमः मधुपृष्ठम् घोरमया समश्वम् वृथे युञ्जन्त्युरुचक्रविश्वम् सुसार एञ्जापयोः मर्जयन्ति सनाभयोभाजिनमोर्जयन्ति चतस्र एतदुः सृजन्ते सभारे अन्तर्धरुणे निषत्ताः ता एमर्षन्ति नमसा पुधानास्ता एम् विश्वतः परिषन्ति शम्भो दिवो धरुणः पृथिव्या विश्वाः उतक्षितयो हस्ते अस्य असत्त उच्छो अगृणते नियुक्त्वान्मध्वो अंशुः पवत इन्द्रियाय वन्दन्नवातो अभिदेववेतिमिन्द्राय सोमवृत्रहापस्व षग्धिमः पुरश्चन्द्रस्य राजः सुवीर्यस्य पत यस्याः प्रहिन्द्रानोजनितारोदस्यो रथो इन्द्रम् गच्छन् राजुधा संशिशानो विश्वावसुहस्तयो रादथा नः अभित्रिपृष्ठम् मृषणम् वयोधा माङ्गूषाणामवा वसन्तवाणीः वार्याणि शूरग्रामः युधः क्षिप्रथन् रासमत्स्वशाहः साह्वानृदः सुशत्रोन् मरुगौ योजानि कृण्वन् समे चेदे आपवस्वापुरन्धि अपसिषाः सन्नुषसः सार्गाः सञ्चिक्रतो बहो अस्तभ्यम् वाजान वत्स्यसो भवरुणम् वत्स्यमित्रम् वत्स्येन्द्रमिन्दो मत्स्यशद्धो मारुतम् मत्स्यदेवान् मत्सि महामिन्द्रबिन्दो मदाय देवाराजेव क्रतुमाम् अमेन विश्वाघनिघ्नद्दुरितापवस्व इन्द्रोऽसूक्ताय वद सेवयो धायूयम् पात स्वस्तिभिः सदा नः इति सप्तमाष्टके तृतीयोऽध्यायः